नारदपुराणम् पूर्वार्धम् अध्यायम् सिक्टि सनन्दन उवाच अवतीर्णेषु विप्रेषु व्यासपुत्र सहायवान् तूष्णीं ध्यानपरो धीमानेकान्ते समुपाविशद तमुवाचा शरीरीवाग्व्यासम् पुत्रसमन्वितम् भो भो महर्षे वासिष्ठब्रह्मकोशो न वर्तते एकोध्यानपरस्तूष्णीं किमास्ये चिन्तयन्निव ब्रह्मकोषैर्विरहितः पर्वतोऽयं न शोभते तस्मादधीश्व भगवन् सार्धं पुत्रेण धीमता वेदान्वेदविदा चैव सुप्रसन्नमना सदा तच्छ्रुत्वा व्यासो नभो वाणी समीजितं सुकेन सह पुत्रेण वेदाभ्याः समधाकरोद तयोरभ्य सदोरेवं बहुकालं द्विजोत्तमवादोदिमात्रं प्रववौ समुद्रानिलवीजितः तदो न ध्याययिति तं व्यासपुत्रमवारयद सुको वाजिदमात्रस्तु कौतूहलसमन्वितः अपृच्छत्पितरं तत्र कुतो वायुरभूदयम् आख्यातुमर्हदि भवान् सर्वं वायोर्विचेष्टितम् शुकस्यैतद्वच श्रुत्वा व्यासपरमविस्मितः अनध्याय निमित्तस्मिन्निदं वजनमब्रवीद दिव्यं ते चक्षुरुत्पन्नं स्वस्थं ते निश्चलं मनः तमस्सारजः सा चापि तस्यात्मनि स्वयं वेदान् बुद्ध्वा समनुचिन्तय देवयानचरो विष्णो पितृयानश्च तामसः द्वा वेदौ प्रत्ययं यादौ दिवं चाधश्च गच्छदः पृथिव्यामन्तरिक्षे च यत् तस्संव्यादिवायवः सतदेव युमार्गवैतान्निबोधानुपूर्वशः तत्र देवगणसाध्यासमभूवन्महाबलाः तेषामप्यभवत्पुत्रः समानो नाम दुर्जयः उदानस्तस्य पुत्रो भूध्यानस्तस्य भवत्सुतः अनपत्यो अनस्तोज्ञे प्राणो तदपरमनप्यो भवो दुर्धर्श शुमर्दन पृथ कर्मा प्रवक्षा यथा तथा प्राणिशुष्टा वर्तदे पृथक प्रीणनाञ्चैव सर्वेषां प्राण इत्यभिधीयते प्रेषयत्यप्रसङ्खादान्धूम्मजांश्चोष्मजांस्तथा प्रथमः प्रथमे मार्गे प्रवाहो नाम सोऽलः अम्बरे स्नेहमात्रेभ्यस्तडेभ्यश्चोत्तमद्युतिः आवहो नाम सोभ्यदिद्विधि यश्वस्नो नदन् उदयं ज्योतिषां शश्वत्सोमादीनां करोति यः अन्तर्देहेषु चोदानं यं वदन्ति मनीषिणः यश्च्यः समुद्रेभ्यो वायुर्धारयदे जलम् दददे चाबोजीमूतेभ्यो वने निलः योद्धिसंयोज्यजी मोदान् पर्जन्याय प्रयच्छति उद्वहो नाम बंहिष्टस्तृति यः स सदा गतिः संनीयमानाबहुधा येन नीला महाखनाः वर्षमोक्षकृदारम्भास्ते भवन्ति योऽसौवपदिदेवानां विमानादिविहाय सा चतुर्धसंवाहो नाम वायुसगिरिमर्दनः येन वेगवदा रुघ्णा क्रियन्ते तरुजारसाः पञ्चमः यस्मिन् परिप्लवे दिव्या वाहन्त्यापो विहाय सा पुण्यं चाकाशगङ्गाया स्तोयं तिष्ठधि तिष्ठति दूरात्प्रतिहदो यस्मिन्नेकरश्मिर्दिवाकरः सहस्रस्य येन यादिवसुन्धराम् यस्मादप्यायते सोमो निधिर्दिव्यो मृतस्य च षष्ठपरिवहो नाम स वायुर्जीवदाम्बरः सर्वप्राणभृदां प्राणार्ण्योदकाले निरस्यदि यस्य धर्मेऽनुवर्धदे भव सम्यगन्वीक्षदा बुद्ध्या शान्तयाध्यात्मनित्यया ध्यानाभ्यासाभिरामाणां यो मृतत्वाय कल्पते यं समासाध्यवेगेन दिशा मं प्रपेदिरे दक्षस्य दशपुत्राणां सहस्राणि प्रजापतेः येन वृष्ट्या पराभूतस्तोयान्येन निवर्तते परीवहो नाम वरो वायुः सदुरधिक्रमः एव वा मेदे दिदेः पुत्रा मरुदः कम्पि तत्सहसातेन पवमानेन वायुना विष्णोर्निश्वासवादोयं यदा वेगसमीरितः सहसो धीर्यदे तादजगत् प्रव्यतदा तस्माद्ब्रह्मविदो ब्रह्म न पाठन्त्यदि वायुतः वायोर्वायुभयं ह्युक्तं ब्राह्य तत् पीडितं भवेद् येदावदुक्त्ववजनं दावदुक्त्वा वचनं पराशरसुतः उक्त्वा पुत्रमधीष्वे दिव्योम गङ्गामगात्तदा तदो व्यासे गदे स्नादुं शुको ब्रह्मविदाम्बरः स्वाध्यायमकरोद्ब्रह्मन् वेदवेदाङ्गपारगः तत्र स्वाध्यायसंसकृतं शुकं व्यास मुने सनत्कुमारो भगवानेकान्ते समुपागतः उद्धाय सत्कृदस्तेन ब्रह्मपुत्रो हि कार्षिणा तदप्रोवाचविप्रेन्द्र सुखं विदाम्बरः किं करोषि महाभागव्यासपुत्रमहाद्युदे सुक उवाच स्वाध्याये सम्प्रवृत्तोऽहं ब्रह्मपुत्राधुना स्थिदः त्वद्दर्शनमनुप्राप्तकेनापि सुकृतेन च किंचित् त्वां प्रष्टुमिच्छामि तत्त्वं तद्वदस्वमहाभाग यथा तज्ज्ञानमाप्नुयां सनत्कुमार उवाच नास्ति विद्यासमं समं चक्षुर्नास्ति विद्यासमं समं तपः नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखं निवर्तिकर्मण पापात् सददं पुण्यशीलता सद्वृत्तिसमुदाचारश्रेय एतदनुत्तमं मानुष्यमसुखं प्राप्य यः सज्जति सङ्घो वै दुःखलक्षणः सप्तस्य बुद्धिर्भवति मोहजालविवर्धिनी मोहजालावृतो दुःखमिहामुत्र तथा श्नुदे सर्वोपायेन कामस्य क्रोधस्य च विनिग्रहः कार्यश्रेयोर्धिना तौ हि श्रेयो खादार्थमुद्यतौ नित्यं क्रोधातपो रक्षेच्छ्रियं रक्षे च मत्सराद् विद्यां मानावमानाभ्यामात्मानं दुःप्रमाददः आनृशंस्यं परो धर्मः क्षमा च परमं बलम् आत्मज्ञानं परं ज्ञानं सत्यं हि परमं हितं येन सर्वं परित्यक्तं स सा विद्वान् सज पण्डितः इन्द्रियैरिन्द्रियार्देभ्यश्चरत्यात्मवशैरिह आ सज्जमानः शान्तात्मा निर्विकारसमाहितः आत्मभूतैरदद्भूतः सह चैव विनैव च अदर्श नमः संस्पर्शस्तथवा भाषणं सदा यस्य भूतैः सह सश्रेयो विन्ददे महद न किं स्यात् सर्वभूतानि भूतैर्मैत्रायणश्चरेद वैरं गुर्वेदके न आ किं चन्यं सुसन्तोषो निराशिष्ठमचापलं ये ददाहुपरं श्रेय आत्मज्ञस्य जिदात्मनः परिग्रहं परित्यज्य भव तादजितेन्द्रियः अशोकं स्थानमाधिष्ठ इह चामुत्र च चा भयं निराशिषो न शोचन्ति त्यजेदाशिषमात्मनः परित्यज्याशिषं सौम्य दुःखग्रामाद्विमोक्ष्यस्य तपरो नित्येन दान्तेन मुनिना सम्यदात्मना अजितं चेतुकामेन भाव्यं सङ्गेष्व सङ्गिना गुणसङ्गेष्वश्व न सकृचर्याजतः सदा ब्राह्मणो न चिरादेव सुखमायात्यनुत्तमम् द्वां द्वारामेषु भूतेषु वारकोरमदे मुनिः किञ्चिन्प्राज्ञानतृप्तोऽसौ ज्ञानतृप्तो न शोचति शुभैर्लभे ददेव त्वं व्यामिश्रैर्जन्ममानुषम् अशुभैश्चाप्यधो जन्मकर्मभिर्लभदे वशः तत्र मृत्युजरा दुःखैः सततं समभिद्रुदम् संसारं पश्यते जन्तुस्तत्पथं नावबुद्ध्यस्य अहि ते हितमध्रुवेध्रुवसंज्ञकः अनर्थे वार्तसंज्ञस्त्वं किमर्थं नावबुद्ध्यस्य संवेष्ट्यमानं बहुभिर्मोहतन्तुभिरात्मजैः कोश कारवदात्मानं वेष्टितो नावबुध्यस्य अलं परिग्रहेणेख दोषवाञ्छि परिग्रहः कृमिर्हि कोस्सकारस्तु बध्यते स्वपरिग्रहाद पुत्रधारकुटुम्बेषु सक्तास्वीदन्ति जन्तवः सरपङ्कार्णविमग्नजीर्णवनगजा इव मोहजालसमाकृष्टान् पश्य जन्तून्सुदुःखितान् कुटुम्बं पुत्रधारं च शरीरं द्रव्यसंश्चयं पारक्यमध्रुवं सर्वं किं स्वं सुकृतदुष्कृते यदा सर्वं परित्यज्य गन्तव्यमवशेन वै अनर्थे किं प्रसक्तस्त्वं स्वमर्धं नानुतिष्ठसि अविश्रान्तमनालम्बमपाधेयमदैशिखम् तमःकर्तारमध्वानं कथमेको गमिष्यसि न हि त्वां प्रस्थितं कश्चित् पृष्ठतोऽनुगमिष्यति सुकृतं दुष्कृतं च त्वां गच्छं तमनुयास्यतः विद्याकर्म च शौर्यं च ज्ञानं च बहुविस्तरम् अर्थार्थमनुशीर्यन्ते सिद्धार्थस्तु विमुच्यते निबं धिनीरजुरेषा या चित्वैनां सुहृदयां दिनैनां चिन्दं दिदुष्कृदः तुल्यजादिवयोरूपान् कृतान् पश्यसि मृत्युना न निर्वेदो लोहं हि हृदयं तव रूपकुलमनस्रोधां स्पर्शद्वीपां रसावहा गन्धपङ्गां शब्दजलां स्वर्गमार्गदुरारुहम् क्षमारित्रां सत्यमयीं धर्मस्थैर्यकराकरां त्यागवादाध्वगां शीघ्रां बुद्धिना वं नदीं धर्मा च ह्युभे सत्यानृदे त्यज त्यज धर्म चाप्यहिंसया शुभे सत्यानृदे बुद्धिं परमनिश्चयाद अस्तिस्तूणं स्नायुयुधं मांसशोणितलेपनं धर्मा वनद्धं दुर्गन्धिं पूर्णं मूत्रभुरीषयोः जराशोकसमाविष्टं योगायधनमस्थिरं रजस्वलमनित्यं च भूतावासं समुत्सृज इदं विश्वं जगत्सर्वम जगञ्चापि यद्भवेद् महाभूतात्मकं सर्वमस्माद्यत् परमाणुमत इन्द्रियाणि च पञ्चैव तमसत्त्वं रजस्पथा इत्येष सप्तदशो राशिख्यक्तस्संज्ञकः सर्वैरिहेन्द्रियार्थैश्च व्यक्तव्यक्तैर्चि हितं पञ्चविंशक इत्येष व्यक्तव्यक्तमयोगणः यदैः सर्वै अभिधीयते त्रिवर्गोत्र सुखं दुःखजीवितं मरणं तथा य इदं वेदतत्वेन स स वेदप्रभावा प्रभवाप्ययौ इन्द्रियैर्हि यद्यतद्वमभिधीयते अव्यक्तमधतज्ज्ञेयं लिङ्गग्राह्यमधीन्द्रियम् इन्द्रियायैर्नियमैर्देही धाराभिरिवदर्प्यते लोके विहितमात्मानं लोकं चात्मनि पश्यति परावरदृशशक्तिर्ज्ञानवेलां न पश्यति पश्यद सर्वभूतानि सर्वदा ब्रह्मभूतस्य संयोगो नाशुभेनोपपद्यते ज्ञानेन विविधा पशान्ननिवृत्तिश्च लोगबुद्धिप्रकाशेन लोकमार्गो नरिष्यति अनादिनिधनं जन्तुमात्मनि स्थितमव्ययम् अकर्तारममूढं च भगवानाहतीर्थविद यो जन्तुस्वकृदायिस्ताैस्तै कर्मभिर्नित्यदुःखितः स्वदुःखप्रतिघातार्थं हन्ति जन्तुरने कथा तदकर्मसमाधत्ते पुनरन्यन्नवं बहु तप्यत्येध पुनस्तेन भुक्त्वा पद्यमिवातुरः अजस्रमे वोहान्तो दुःखेषु सुखसंनितः वध्यदे तप्यते चैव भयवत्यर्मभिस्सदा तदो निवृत्तो बन्धात्स्वात्कर्मणामुदयादिह परभ्रमदि संसारे चक्रवद्बाहुवर्जितः संयमे न जसम्बन्धान्निवृत्या तपसो बलात् सम्प्राप्ता इति बहवसिद्धिम् अव्याबाधां सुखोदयाम् इति श्रीबृहन्नारदीयपुराणे पूर्वभागे द्वितीयपादे बृहदुपाख्याने षष्टितमोऽध्यायः ओम्